छान्दोग्योपनिषत् शान्तिपाठम् ओप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुश्रोत्रमधो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्म उपनिषदं माहं ब्रह्मनिराकुर्याम् मा ब्रह्मनिराकरोधनिराकरणमस्त्वनिराकरणमेस्तु तदात्मनि निरधेय उपनिषत्सु धर्मास्ते मयि सन्तु मयि सन्तु ॐ शान्ति शान्ति शान्तिः अध्यायं वन् घण्टं वन् ॐ इत्येतदक्षरमुद्गीधमुपासीत ॐमि दिक्ष्युद्गा यदि तस्योपव्याख्यानं येषाम्भूतानां पृथिवी रसः पृथिव्या रस पुरुषो रसः पुरुषस्य वाग्रसो वाजऋग्रसरृजसामरसः साम्न उद्गीधो रसः स एष रसानागं रसतमः परमः परार्ध्योष्टमोयमुद्गीधः कदमाकदमर्कदमत्कदमत् साम कदमकदम उद्गेध इति विमृष्टं भवति वागेवार्प्राणः सामो मित्येदक्षरमुद्गीधः तद्वायेदन्मिथुन यद्वाक् च प्राणश्चर्च साम तदेतन्मिथुनमो मित्येतस्मिन्नक्षरे सगं सृज्यदे यदा वै मिथुनौ समागच्छद आपयतो वै तावन्योन्यस्य कामम् आपयिदाह वै कामानां भवति य ए ददेवं तद्वा एतदनुज्ञाक्षरयद्धि किञ्च नुजानात्योमित्येव मित्येव कैशो येव समृद्धिर्यदनुज्ञा समर्धयिता क वै कामानां भवधिय एतदेवं विद्वानक्षरमुद्गीधमुपास्ते तेनेयन्त्रयि विद्यावर्तते ओमित्याश्रावयत्यो मिदिशगुं सत्यो मित्युद्गायत्येतस्यैवाक्षरस्यापतित्यै महिं नारसेन तेनोभौ कुरुतो यश्चैददेवं वेद यश्च न वेद नानादुविद्या चाविद्या च यदेव विद्यया करोधि श्रद्धयोपनिषदा तदेववीर्यवत्तरं भवतीति खल्वे तस्यैवाक्षरस्योपव्याख्यानं भवति अध्यायं वन् खण्डं टु देवासुराहवै यत्र सय्ये उभये माज्यक्रुरने प्राजापत्यास्तद्धेवा उद्गीधमाजह्रुरने नैदानपि भविष्याम इति देह नासिक्यं प्राणमुद्गीधमुपासाञ्चक्रिरेतगुम्हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रदिसुरभिज दुर्गन्धिजपाप्मनाख्येषविद्धः अधवाचमुद्गीधमुपासाञ्चकृगुहासुराः पाप्मना विविधुस्तस्मात्तयो भयं वदति सत्यं वददि च पाप्मनाख्येषा विद्धा अधः चक्षुरुद्गीधमुपसां चक्रुरे तद्धासुराः पाप्मना विविधोस्तस्मात् तेनो भयं पश्यति दर्शनीयं चादर्शनीयं तद्धासुराः पाप्मना विविधोस्तस्मात् तेनोभयगुं शृणोदि श्रवणीयं चाश्रवणीयं च पाप्मना ह्येदद्विद्धम् अधह मन उद्गीधमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मा सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मनाह्येदद्विद्धम् अध हय एवायं मुख्यः प्राणस्थमुद्भिदमुपासां चक्रिरेतघुमासुरारुत्वा विदध्वंसुर्यथास्मानमाखणमृत्वा ये वै यथास्मानमा खणमृत्वा विध्वगुं सद एव गुंहैव स विध्वगुं सदेह एवं विधिपापङ्काम यदे यश्चैनमभिधा सदि स एषोऽस्मा खणः नैवैतेन पाप् माह्येष तेन यदश्नादि यत्पिबधि तेनेतरान् प्राणानवधि येदमु ये वान्ततो वित्वोत्क्रामदिव्या ददात्येवान्तद इति तगुंहाङ्गिरावुद्गीधमुपासाञ्चक्र ये तमु एवाङ्गिरसं मन्यतेङ्गानय्यद्रसः तेन तगुंह बृहस्पतिरुद्गीतमुपासाञ्चक्रयेतमु बृहस्पतिं मन्यन्ते वाग्धिबृहदि तस्या येषपतिः तेन तगुम् आयास्य उद्गीधमुपासाञ्चक्र ये दमु ये वायास्यं मन्यन्त आस्याद्यदयते द्या तेन तगुम्हबको दाल्भ्यो विदाञ्चकार सह नैमिषीयानामुद्गादा बभूव सहस्मैभ्यक् कामानागायदि आगादाह वै कामानां भवति यजे ददेवं विद्वानक्षरमुद्गीधमुपास्तध्यात्मम् ओ अध्यायं 1, खण्डं 3 अधाधिदैवतै यये वा सौत्तपति तमुद्गीतमुपासीदोऽद्यन्वा एषः प्रजाभ्य उद्गायति उद्भुंस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य समान उवायञ्चसौ चोष्णोयमुष्णोः सौ इति ममा स्वर इति प्रत्या स्वर इत्यमुस्माद्वा येदमिमममुञ्चोद्गीधमुपासीद अधः खलु व्या नमेवोद्गीध उपासीदय यद्वै प्राणिदिशप्राणो यदपानिदिशोपानः अध यः प्राणापानयोः सन्धिः सव्यानो योऽव्यानस्सावाक् तस्माद प्राणन्ननपानन्वाजमभिव्याहरति यावाक्सर्तस्मादप्राणन्ननपानन्नृजमभिव्याहरदि यर्तसामस्तस्माद प्राणन्नपानन् अधो यान्यन्यानि वीर्यवन्दिकर्माणि यथाग्नेर्ममाजे शरणं दृढस्य धनुष आयमनमप्राणन्नपानगुंस्थानि करोत्येतस्य हे दोर्व्यानमेवोद्गीधमुपासीत अथ खलुद्गीधाक्षराण्युपासीदोद्गीध इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वा गीर्वाचोह गिर सर्वगं धमन्ये हीदगं सर्वगुं स्थितम् द्यौरेवोदन्तरिक्षङ्गीः पृथिवीधमादित्य येवोद्वायुर्गीरग्ने स्वगं सामवेद येवोद्यजुर्वेदो गीरुग्वेदस्तन्दुग्धेऽस्मै वाग्दोकय्यो वाचो दोहोन्न वा नदो भवदीय येतान्येवं विद्वानुद्गीधाक्षराण्युपास्त उद्गीध इति अध कल्वाशीसमृद्धिरुपसरणानीत्युपासीत येन साम्नास्तोऽष्यन् स्यात्तत्सामोपथा वेत् यस्यामृजितामृतैर्यदार्शे यंस्तमृशै यान्देवतामभीष्टोष्यन् स्यात्तान् देवतामुपथा वेत् यान् दिशमभीष्टोष्यन् स्यात्तान् दिशमुपथा वेद आत्मानमन्तद उपसृत्यस्तु वीदकामन् ध्यायन्न प्रमत्तोऽभ्याशोह यदस्मै स अध्यायं वन् खण्डं फो ओमित्येदक्षरमुद्गीधमुपासीदो मिदिह्युद्गायदि तस्यो भव्याख्यानं देवा वै मृत्योर्बिभ्यदस्त्रयीं छन्दसां छन्दत्स्त्वम् स्थानु तत्र मृत्युर्यधामस्यमुदके परिपश्येदेवं पर्यपश्यदृजिः साम्नि यदा वा ऋजमाप्नोत्योमित्येवादिस्वरत्येवगं सामैव यजुरेश उत्स्वरो यदे अमृता अभया अभवन् स येददेवं विद्वान् अक्षरं प्राणौत्येददेवाक्षरगुंस्वरममृदमभयं प्रविशति तत्प्रविश्य भवति ओ अध्यायं वन् खण्डं फैव् अथ खलु य उद्गीध स प्रणवो यः प्रणवः स उद्गीध इत्यसौ आदित्य उद्गीध एष प्रणव ॐ मिदिक्षेष स्वरन्नेधि ये तमु एवाहमभ्यगासिषन् तस्मान्मम त्वमेकोशीतिः कौशी तहि पुत्रमुवाच रश्मीगृंस्त्वं पर्यावर्तयात् बहवो वैदे भविष्यन्तीध्यतिदैवतम् अधाध्यात्मयये वायं मुख्यप्राणस्तमुद्गीढमुपासीदो मिदिह्येषरन्नेधि येदमुवाहमभ्यगासिषन् ये तस्मान्ममत्वमेकोऽसीदिह कौशीतकिः पुत्रमुभाच प्राणागंस्त्वं भूमानमभिगायताद् बहवो वै मे भविष्यन्तीदि अध खलु य उदगीधः स प्रणवो यः प्रणवः स उद्गीध इयमेवर्गग्निः सामतदे ददे दस्या मृत्यद्योठगुं सामतस्मादृच्यध्युठगुं सामगीयद साग्निरमस्तत्साम अन्तरिक्ष मे सा मतस्मादृच्यध्योढगं सा॒मगी यदेन्दरीक्षमेव सा वायुरमस्तत्सा॑म द्यौरेवर्गादित्यः सामतदे नक्षत्राण्ये सा मतदे ददे दस्यामृत्यभ्योढगुं सा मतस्मादृत्यद्भ्यो ढगुं सा मगीयदे नक्षत्राण्येवसा चन्द्रमा अमस्तत्साम अध यदे ददादित्यस्य शुक्लम्भा सैवर्गधयन्नीलं पर कृष्णन् तत्सामतदे देदस्यामृत्यध्योढगुं सा अध यदैवैतदादित्यस्य शुक्लम्भासैव साधयन्नीलं तदमस्तत्सामाधय कृष्णन्तदमस्तत्समाधय एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स येष सर्वेभ्यः पाप्मभ्य उदितः उदेतिह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद तस्य च सामचकैष्णौ गीधस्तस्मात्त्वेवोद्गादयितस्य हि गादाश एषये चामुष्मात् पराञ्चो लोकास्तेषाञ्चेष्टे देवकामानाञ्चेत्यधिदैवतम् ओ अध्यायं वन् खण्डं सेवेन् अधाध्यात्मं वागेव प्राणः सामतदे ददे दस्यामृत्यभ्यो ढगुं सामतस्मादृत्यद्भ्यो ढगुं सामगीयते वागेव सा प्राणो मस्तत्साम चक्षुरेवर्गात्मा सामतदे दे सामतस्मा समतस्मादृत्यद्भ्योढगं समगीयदे चक्षुरेव सात्मामस्तत्समत् श्रोत्रमेवं मनःसामतदे देदस्यामृत्यद्यूगं सामतस्माद्धृत्यद्यूगं सामगीयदे श्रोत्रमेव सा मनो मस्तत्साम अथ सैवर्गधयन्निीलं पर कृष्णन् तत्साम तदे दधेदस्यामृत्यध्यूढगुं साम तस्मादृच्यध्यूढगुं सामगीयते अध यदे वैदक्षिणः शुक्लं भासैव यन्नीलं पर अध य एषोन्दरक्षिणि पुरुषो दृश्यदे सैवर्तत्साम तदुग्धं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपै्यदमुष्यरूपै्यावमुष्यघेष्णौ तौघेष्णौ यन्नाम तन्नाम स येष ये चैतस्माद्धर्वाञ्चो लोकास्तेषाञ्चेष्टे मनुष्यकामानां चेदि इमे वीणायां गायन्त्ये तन्ते गायन्ति तस्मात् ते धनशनयः अध ये देवं गायति सोमु नैव स एष ये चामुष्मात् पराञ्चो लोगास्तागुंश्चाप्नोति देवकामागुंश्च अधानेनैव ये चैतस्माञ्चो लोगास्तागुंश्चाप्नोति मनुष्यकामागुंश्च तस्माद्दुहैव विदुद्गादाब्रूयाद कन्दे काममागाया नित्ये शह्येव कामगानस्येष्ठेय विद्वान् सामगा यदि सामगायदी ओ अध्यायं वन् खण्डम् त्रयो होद्गीदे कुशला बभूवु शिलकशालावत्यश्चैकिताय दाभ्य प्रवाहो जैविरीदे खोजुद्दी देशलास्म हंसो दे कदा वदाईदी तथेसमुपिवशु सह प्रवाहो जैवलिवाज भगवन्दावग्रेव ददां ब्राह्मणयोर्वददोर्वाचगुं श्रोष्यामीदि सह शिलकश्चालावत्यश्चैकितायनन्दाल्भ्यमुवाचकं दत्वा पृच्छानेदि पृच्छे दिहोवाच कासां नो गदिश्वरयिदिहोवाच स्वरस्य का गरीणई दिवाच प्राण से का गरनिधिवाचा से का गिरीदवाच अप गरीसौलोक मुश्यलोक का गदिरिति न स्वर्गल्लोकमधिनये दिदिहोवाच स्वर्गं वयल्लोकगुं सा माभिसंस्थापयाम स्वर्गसगुंस्तावगुं हि सा मेधितगुंह शिलकशालावत्यश्चैकितायनन्दाभ्यमुवाचाप्रधिष्ठितं वै किल देद्दाल्भ्यसाम यस्त्वेतर्हि ब्रूयान्मूर्धादे विपतिष्यतीति मूर्धादे विपतेदिति हन्ताकमे दद्धागवतो वेदानिधिविद्धि दिहो वाचामुष्यलोकस्य का गदिरित्ययल्लोकयिदि होवाचास्य लोकस्य का गदिरिति न प्रधिष्ठाल्लोकमदिनयेदिदि होवाजप्रधिष्ठा वयल्लोकगं सामाभिषघं स्ताभयामः प्रधिष्ठा सघं स्तावगं खिसा मेदि तगुंहप्रवाहणो जैवलिरुवाचान्दवद्वै किलदे शालावत्य सामयस्त्वे तर्हि ब्रूयान्मूर्धादे विपतिष्यतीति मूर्धादे विपदेति दिहन्ताकमे दद्भगवतो वेदानीदिविद्धिदिहोवाच ओ अध्यायं वन् खण्डं नयन् अस्य लोकस्य कागदिरित्याकाश इति होवाच सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तयन्त्याकाशोह्ये वैभ्यो परायणम् स एष परो वरीयानुद्गीधस्स एषो नन्दः परो वरीयो हास्य भवदि परो वरीयसोकधोकान् जयति यये ददेवं विद्वान् परो वरीयागं समुद्गीधमुपास्थे खगं खैदमधिधन्वा शौनग उदरशाण्डिल्या योक्त्वो वाच यावत्त प्रजाया मुद्गीधं वेदिष्यन्ते परो वरीयो हैभ्यस्तावदस्मिल्लोके जीवनं भविष्यति तदा तथामुष्मिल्लोके लोक इति सयये ददेवं विद्वानुपास्ते परो वरीय एव हास्यास्मिल्लोके जीवनं भवति तथा मुष्मिल्लोके लोक इति लोके लोक इति ओम। अध्यायं वन् घण्टं टेन् मडचीकते शु कुरुष्वाटिक्या सहजाय योषस्तिर्हचाक्रायण यिभ्य ग्रामे प्रद्राणक उवास सखेभ्यङ्कुल्माशान् खादन्तं बिभिक्षेतगुंहोवाच नेतोऽन्ये विद्यन्ते यच्च येम इम उपनिषिता इति यदेषा मे देही दिहो वाच तानस्मै प्रददाहन्दानुपानमित्युच्छिष्टं वै मे पिदगुं स्यादि होवाच न स्विद्धे देऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निधिहो उदपानमिति सह खादित्वादिशेषाञ्जाया आजहारसाग्र्येव सुभिक्षा बभूव तान् प्रदिगृह्य निदधौ सखप्रादः सञ्जिवा न उवाच यद्भक्तान्नस्य लभे महि लभे महिधनमात्रागं राजा संयक्ष्यदे समा सर्वैरात्विज्यैर्वृणीतेधि तञ्जायोवाच हन्तपतम एव कुल्माशायिति तान् विदतमेयाया मुय्यं विततमेयाय तत्रोद्धातॄनास्तावेस्तोष्यमाणानुभोपविवेश सखप्रस्तोतारमुवाच प्रस्तोदर्या देवदा प्रस्तावमन्वा यस्ता ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्धादे विपतिष्यतीति एवमेवोद्गादारमुवाचोद्घादर्या देवतोद्गीधमन्वा यत्ता ताञ्चेदविद्वानुद्घास्यसि मूर्धादे विपतिष्यतीति एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वा यत्ता ताञ्चेदविद्वान् प्रतिहरिष्यसि मूर्धा दे विपदिष्यतीति तेखसमारथास्तूष्णीमासाञ्चक्रि रे अध्यायं वन् खण्डम् इलवन् अध हैनय्यजमान उवाच भगवन्दं वा अहं विविदिशात्युषस्तिरस्मि चाक्रायण इति होवाच सहोवाच भगवन्दं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवदो वा अहमवित्त्वा ज्ञानवृषि भगवागुंस्त्वेव मे सर्वैरार्त्विज्यैजिति तथेत्यथ तर्ह्येदयेव समधिसृष्टास्तुवता यावत्त्वेभ्यो धनं दध्यास्तावन्मम दध्या यदि तथेतिह यजमान उवाच अध हैनं प्रस्तोतोपससादप्रस्तोतर्या देवता प्रस्तावमन्वा यत्ता दा प्रस्तोष्यसि मूर्धा दे विवतिष्यतीति मा भगवान् वोचत्कदमासा प्राण इदि होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्धिप्राणमभ्युज्जिहदेशैषा देवताप्रस्तावमन्वा यत्ताञ्चेद विद्वान् प्रास्तोऽष्यो मोग्धा देव्यपतिष्यत्तथोक्तस्य मयेदी अथ हैनमुद्गातोपससाधोद्घातर्या देवतोद्गीधमन्वायत्त ताञ्चेद विद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीदिमा भगवानगोचत्कतमासादेवतेति आदित्य इदिहोवाच सर्वाणि कवा इमानि भूधान्यादित्यमुच्च चैषन्तं गायन्ति सैषा देवतोद्गीधमन्वायत्ता ताञ्चेद विद्वानुदगास्यो मूर्धा ते व्यपदिष्यत्तथोक्तस्य मयेति अध हैनं प्रतिहर्तोपससादप्रतिहर्तर्या देवदाप्रतिहरमन्वायत्ता ताञ्चेद विद्वान् प्रतिहरिष्यसि मूर्धा दे विपतिष्यति मा भगवानवोचत्कतमासा देवतेति अन्नमिति होवाच सर्वाणि ह इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायता ताञ्चेदविद्वान् प्रदिहरिष्यो मूर्धा देव्यपतिष्य तदोक्तस्य मयेदि तदोक्तस्य मयेति ओ अध्यायं 1, खड्गं 12 अथा तस्यैव उद्गीतस्तद्धभको दाल्भ्यो ग्लावो वा मैत्रेयस्वाध्याय मुद्व्राज तस्मैष्वाश्वेतःप्रादुर्बभूव तमन्येष्वान गायत्वशना भगवानागायत्वशनायामवा इति तान् होवाचे हैवमाप्रादरुपसमीयातेति तद्धभगो दाभ्योऽग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार तेह यथैवेदं बहिःपवमानेन स्तोष्यमाणाः सगुं रब्धाः सर्पन्दीत्येवमास स्रुपुस्तेः समुपविश्य ॐ मदाो पिबामो देवो वरुणप्रजापदि सविदान्न मिहारदन्नपदीर्नमिहा हरा हरोमिति ओ अध्यायं वन् घण्टं तर्टीन् अयं वावलोको हा उकारो वायुर्हा इकारश्चंद्रमाअकार आत्मेकारोंग्निरी आदि ऊकारो निखवेकारो विश्व देवा ओपोई प्रजापति प्राणस्वरो नय्यारा अनिरुक्तस्त्रयो दशस्थोभः संचरो हुङ्कारः दुग्धेस्मै वाग्दोह्यो वाचो दोहोन्नवानन्नादो भवधिय एदामेवगुंसाम्नामुपनिषदं वेदोपनिषदं वेद इति इति प्रथमोऽध्यायः Om